अथ त्र्यधिकशततमः सर्गः स तु तेन तदाक्रोधात् काकुत्स्थेणार्दितो भृशम् रावणः समरश्लाघी महाक्रोधमुपागमत् स दीप्तनयनोमर्षाच्छापमुद्यम्यवीर्यवान् अभ्यर्दयत्सु सङ्क्रुद्धो राघवम् परमाहवे सतो यद राघवम् रावणो बाणैस्तटाकमिव पूरयन् पूरितः शरजालेन धनुर्मुक्तेन संयुगे महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते सशरैः शरजालानि वारयन् समरे स्थितः गभस्तीनिव सूर्यस्य प्रतिजग्राहवीर्यवान् निशाचरः निजघानो रसिक्रुद्धो राघवस्य महात्मनः सशोणितसमादिग्धः समरे लक्ष्मणाग्रजः दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः शराभिघातसंरब्धः सोऽभिजग्राहसायकान् काकुत्स्थः सुमहातेजायुगान्तादित्यवर्चसः शरान्धकारे समरे नोपलक्षयताम् तदा ततः क्रोधसमाविष्टो रामो दशरथात्मजः उवाच रावणम् वीरः प्रहस्य परुषम् वचः मम भार्या जनस्थानादज्ञानाद्राक्षसाधमा कृता ते विवशा यस्मात्तस्मात् त्वम् मया विरहिताम् दीनाम् वर्तमानाम् महावने वैदेहीम् प्रसभम् हृत्वा शूरोऽहमिति मन्यसे स्त्रीषु शूरभिनाथासु परदाराभिमर्शनम् कृत्वा कापुरुषम् कर्म शूरोऽहमिति मन्यसे भिन्नमर्यादनिर्लज्जचारित्रेश्वरवस्थिता दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे शूरेण धनदभ्रात्रा बलैः समुदितेन च श्लाघनीयम् महत्कर्म यशस्यम् च कृतम् त्वया उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च कर्मणः प्राप्नुहीदानीम् तस्याद्यसुमहत्फलम् शूरोऽहमिति चात्मानमवगच्छसि दुर्मते नैव लज्जास्ति सीता धर्षिता बलात् भ्रातरम् तु खरम् पश्येस्तदा मत्सायकैर्हतः दिष्ट्यासि मम मन्दात्वम् चक्षुर्विषयमागतः अद्य त्वाम् सायकैस्तीक्ष्णैर्नयामि यमसादनम् अद्य ते मच्छरैश्चिन्नम् शिरोज्ज्वलितकुण्डलम् क्रव्यादाव्यपकर्षन्तु विकीर्णम् ऋणपांशुषु निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण पिबम् तुरुधिरम् तर्शाद्बाणशल्यान्तरोत्थितम् अद्य मद्बा न भिन्नस्य गता सोः पतितस्य ते कर्षन् त्वन्त्राणि पतगा गरुत्पन्त इवो रगान् इत्येवम् वीरो रामः शत्रुनिबर्हणः राक्षसेन्द्रम् समीपस्थम् शरवर्षैरवाकिरत् बभूमद्विगुणम् वीर्यम् बलम् हर्षश्च संयुगे रामस्यास्त्रबलम् चैव शत्रोर्निधनकाङ्क्षिणः प्रादुर्बभूगुरस्त्राणि सर्वाणि विदितात्मनः प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः भूय एवार्दयद्रामो रावणम् राक्षसाम् तकृत् हरीणाम् चाश्वनिकरैः शरवर्षैश्च राघवात् हन्यमाणो दशग्रीवो विघूर्न हृदयोऽभवत् यदा च शस्त्रम् नारेभे न ना च कर्षशरासनम् नास्य प्रत्यकरोद्वीर्यम् विक्लवेणान्तरात्मना क्षिप्ताश्चाशुशरास्तेन शस्त्राणि विविधानि च मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत सूतस्तु रथमेतास्य तदवस्थम् निरीक्ष्यतम् शमैर्युद्धाद सम्भ्रान्तो रथम् तस्यापवाहयत् रथम् च तस्याथ जवेन सारथिर्निवार्य भीमम् जलदस्वनम् तदा जगामभीत्या समरान्महीपतिम् निरस्तवीर्यम् पतितम् समीक्ष्य इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे त्र्यधिकशततमः